अथर्ग्वेदे अष्टमाष्टके चतुर्थोऽध्यायः ओरसृक्षधनेन्द्रम् देवमांसदा यत्रामदद्विशाकविरयः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः पराहेन्द्रधावसि विषाकभेरदिव्यथेः नो अहप्रविन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः यम् त्वाम् विषाकविष्ठकार हरितो मृगः यस्मा इरस्य विश्वस्मादिन्द्रपुत्तरः न हिमन्तम् वृषाकिम् श्वान्वस्य जम्भिषदभिकर्णे एव राजुर्विश्वस्मादिन्द्रपुत्तरः प्रियादष्टानिमे पविर्व्यक्ताव्यदोदुषत् शिरोऽन्वस्य राषन्नसुखम् दुष्कृते एवम् विश्वस्मादिन्द्रपुत्तरः न मत्स्त्रेषु भसत्तरा न सुयासुतराभुवत् न मत्प्रतिच्यमेयसे नसक्षुव्यमीयसे विश्वस्मादिन्द्र उत्तरः उभे अम्बसुलाभिकेयथे एवाङ्गभविष्यति भसन्मे ए अम्भक्तिमे पृथुजागने किंसु अवीरा आमि भवामयम् शराारुरभिमन्यते उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरःत्रम् स्म पुरानादेशमनम्बावगच्छति वेहारतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः इन्द्राणी वासुनारिषु सुभगा आमहमश्रवम् न ह्यस्या अपरञ्जलचरसामरथे पतिर्विश्वस्मादिन्द्र उत्तरः नाहमिन्द्राणिरारणसख्यवृषाकपेरते यस्येदमप्यम् हविर्प्रियम् देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः विषामाकपायदेव तिषु पुत्र आसु स्नुषे घसत्पविन्द्रभुक्षणः प्रियङ्गा आचित्करम् हविर्विश्वस्मादिन्द्र उत्तरः मुक्ष्णो हि मे पञ्चदश साकम् वचन्ति शभो न तिग्मशङ्गोऽन्तर्योधे शुरोर्वन्थस्त इन्द्रम् हृदेयन्ते ए सुनोति भा भयुर्विश्वस्मादिन्द्र उत्तरः न सेशेयस्यालम्भतेऽन्तरासख्या आकृत सेदे ईशेयस्य नो भषन्निषे श्रेयस्य रोमसन्निषेतुषो विजृम्भते सेदेशेयस्य रम्भतेऽन्तरासख्यारिन्द्र उत्तरः अयमिन्द्रविशाखविः परः स्वन्तम् मतम् विदत् असिंसोनान्नवम् चरुमादेशस्या न आचितम् विश्वस्मारिन्द्र उत्तरः अयमे एमि पिबामिपाकसुत्वनोऽभिधीरमचाकसंश्वस्मारिन्द्र उत्तरः जम्बजयत्कृन्दत्रम् जगति स्वित्ताभियोजना नेदे यशो वृषाकपेस्तः गृहाङ्गुपविश्वस्मारिन्द्र उत्तरः पुनरेहि वृषाकपे सुविताकल्पयावहै य एष स्वप्नम् शनोऽस्तमेहि पथा ृगः कमगञ्जनयोपनो विश्वस्मारिन्द्र उत्तरः परशुरहराममानवी साकंससोपविंशतिम् भद्रम् फलत्यस्या अभोद्यस्या उदरमाम यद्विश्वस्मारिन्द्र उत्तरः रक्षोहणम् बाजि न वाजिघर्म्यमित्रम् प्रधिष्ठमुपयामि शर्मा शिशा आ नो अग्निः क्रतुभिः समिद्धः अयो ओदंष्टो अर्चिषा आयातुधानानुपःस्पृशजातवेदः समिद्धः आधिह्वया पूरदेवान् रभस्वक्रव्यादो वृक्त्यपिधत्स्वासन् उभोभयामिन्नुपदेहिलंष्ट्रा आहिंसरसि उदान्तरिक्षेपरियाहिराजम्भैः सन्धेह्यभिया तुधानान् अग्नैरिशो असन्नममानो अग्ने वाचाशल्याम् असनिसृद्धिमानः ताभिर्हविद्धृतये यातु नान् प्रतीतो बाहून् प्रतिभङ्क्येषाम् अग्ने त्वसञ्जातु दानस्य विन्धि हिंस्राशनिरहरसाहन्ते प्रपर्वाहाणि यद्वान्तरिक्षेपतिः पदन्तमस्ता आविध्यः उता लब्धम् स्पृणिजातवेद आलेभाना दृष्टिया तु अग्ने पूर्वो निजहिशोषुजान आपादःक्ष्मिङ्गास्तमदन्ते यः प्रब्रो ऊरियतमः सो अग्ने योया आतुधानोय इदम् कृणोति तमारभस्ततमिधा आयविष्ठचक्षसश्चक्षुषे रन्धजैनम् तीक्ष्णेना आज्ञे चक्षुषारक्षजज्ञम् राजम् ऋतुभ्यः प्रणयप्रचेदः हिंस्रं रक्षांस्यभिषोषुदानम् मात्वा आदभन्या दुधानाः नृदक्षः नृदक्षारक्षः परिपश्य विक्षुरस्य त्रे प्रतिशृणेत्यग्राः तस्या आज्ञे वृष्टेरहरसा शृणेः त्रेधामोलय्यादुधानस्य रहन्ते ेदः समक्षमे एनङ्णते निवृङ्घ्ये तदग्ने चक्षुःपतिदेहि देभे च भारुयेन पश्यति या तु धानम् अथर्ववज्योतिषादैव्येण सत्यम् दोर्बन्धमचितम् जोष यदग्ने अत्यमिथुलाशपा आतो यद्वाचस्तुष्टञ्जनयन्तरेभाः मन्योर्मनसः शरु्या आजायते यातया आविध्यवृदये यातुधानान् परा आश्रुणीः ररसा यातुधानान् रक्षो हरसा शृणीः परार्चिषामूलदेवान्श्रुणीः परा आसुतृपो अभिशोषुदानः पराज्य देवावृजिनम् शृणन्तु प्रत्यगे एनम् शपथा आयन्तु दृष्टाः वाचास्ते एनम् सर्वरिच्छन्तु परमन् विश्वस्यैतु प्रसिनी यातुधानाः यः पौरुषे येण आयातुधानाः यो अग्न्यायाभरति क्षेणमग्ने देशांशीर्षाणि हरसापि दृष्ट संवत्सरेणम् मयपुस्त्रियास्तस्य माशे एद्या तुधानोऽचक्षः पीजूषमग्नेय तमस्ति कृप्सार्थम् प्रत्यम् च मर्चिषाः विध्यमर्मन् विषङ्गमा या तुधानाप्यन्दावृश्चन्तामलितये दुरेवा आह परे एनान्येवस्वताददातुपरा आभागमौषधीनान्यन्ताम् सनातज्ञाद्धान्नक्षाहम्सितनासु विद्यो अनुदः सहमोरान् क्रम्या तन्नो अग्ने अधरादुरक्तात् त्वम् पश्चादुदरक्षा पुरस्तात् प्रतिदेते एकराष्ठा अकषम् संशोषुजतो दहम् तु पश्चात्पुरस्तादधरादुरक्तात् कविः काव्ये एनपरिपाहि राजन् सखे सखा अयमदरोम्नेऽग्ने अमर्त्यस्पन्नाः परित्वाग्ने पुरम् अयम् विप्रम् सहस्य धीमहि विषेन घृषद्वर्णनिरेदिरेहन्तारम्भगुरावताम् विषेणभङ्गुरावतप्रतिश्म रक्षसो ओलः अग्ने दिग्मेन शोचिषातपुरग्राभिरदृष्टिभिः प्रत्यग्ने मिथुनादः यातुधाना किदिना आग। सन्ता आशिषामिजा गह्यलब्धम् यप्रमन्मभिः प्रत्यज्ञयहरसाहरश्रुणिः विश्वलः प्रति यातुधानस्य रक्षसोपलम् विरुदवीर्यम् हविष्पान्तमजलम् स्वर्भिरिति विस्पृश्याहुतञ्जुष्टमग्नौ तस्य धर्मणे भुवनाय देवा देवाधर्मणेकम् स्वधया आपप्रथन्त गीर्णम् भुवनन्तमसापगोढमाभिस्वरभवज्जाते अग्नौ तस्य देवाः पृथिवीद्यौ रुतापोर्णयन्नौषधेः दे सख्ये अस्य देवेऽभिर्विषितो यज्ञये एविरग्निं स्तो ओषाण्यजलम् रुहन्तम् यो भानुना आपृथिवीञ्जामुते मामा आगता न रोदसी अन्तरिक्षम् योः दासे इति प्रथमो देवजुष्टो यं शपदत्रे त्वरम् स्थायगद्यच्छ्वात्रमग्निरृणो जातवेदाः यज्जातमे दोभुवनस्य मूर्धन्न अग्ने सहरो जनेन तन्दा हेममतिभिर्गेर्भिरुद्धैः स यज्ञयो अभवो मूर्धा भुवो भवति सूर्यो जायते प्रातरुद्यन् आयामोतु यज्ञयानामेतामपोयत्तोर्निश्चरति प्रधानन् दृशेऽन्यो यो महिलासमिद्धोरोचतदिवियो निर्विभावाः तस्मिन्नग्नौ सो उक्तवाकेन देवाः विर्विश्वादिवस्तलोपाः सोक्तवाकम्बममालिदग्निमालिधविरजनयन्तदेवाः स एषाम् यज्ञो अभवत्त लोपास्तञ्जौर्वे गतम् पृथिवीतमापाः यम् देवासो जनयन्थाग्नि यस्मिन्नाजुहपुर्भुवनादिविश्वा सोऽर्चिषा आपृथिवीन्द्यामुते मामृजो जमा आ नो अतपन्नहित्ता सोमे एन हि दिवि देवासो अग्निमयीनम् शक्तिभिरोदसिप्रा तमो ओ अकृण्वन्त्रेधा भुवेकम् सरोषधे पचति विश्वरूपाः यदेते एनमदसर्वज्ञया आसो दिवि देवाः सूर्यमादितेयम् यदा च विष्णो विशला बभूवतामादिप्रापश्यन् भुवनानि विश्वा विश्वस्मा अग्निम् भुवनाय देवा वै ईश्वारङ्केतुमन्धाः मकृन् आयस्तता रोदसो विभातिरपोः ऊर्णोतितमो अर्तिशायन् वैश्वानरम् गमयो यज्ञया सोऽग्निम् देवा अदनयन्न दुर्यम् नक्षत्रम् रत्नमविरच्चरिष्टयक्षस्याद्यक्षन्दविषम् रहन्तम् वैश्वानरम् विश्वाः आदेदिवाम् सम्मन्त्रयेरग्निम् गविमच्छा आ वदामः यो महिम्ना परिबभूभूर्वे उदावस्तादुत देवः परस्ता आत् द्वे श्रुति अश्रणवम् शोणामहम् देवानाहामुतमर्त्यानाम् ताभ्यामिदम् विश्वमेतत्समेति यदन्तरापितरम् मातरम् च द्वे समेकेऽपिभृतश्चरन्तम् शीर्षतो जातम् मनसा विभृष्टम् स प्रत्यङ्गश्वा भुवनानितस्थावप्रयच्छन्तरनिर्भ्राजमानः यत्रावदे एते अपरः परश्च यज्ञन्योः कतरो नौ विवेद आशे पुरित्सधमासंसखा आयोरक्षन्तयज्ञम् क इदम् विवो ओचत् कर्त्यज्ञयः कतिसूर्यासः कत्युषासः कत्युस्मितापाः नोपस्पितम् वः पितरो वदामि पृच्छामि वः कवयो विद्मनेकम् यावन्मात्रमुषसोरप्रदेकम् सुपर्ण्यो ओपसते मातरिष्णः आवद्दधात्युपयज्ञमायम् राम्भोः धुरवरो निषेदन् इन्द्रम् स्तभादृतमयस्य समन्नाविद्वादेचराद्वो अन्तान् आयः पप्रोचर्षणेधृद्वरोभिः प्रसिन्धुभ्योरिचारो महिता सौर्यः पर्युरोवरांस्येन्द्रो ओपवृत्त्या द्रथ्ये एव चक्रा अतिष्ठन्तमभस्या अन्नसर्गम् कृष्णातमान् सिक्तिष्या आजघान समानमस्मानपावृतक्ष्मयादिवो असमम् प्रियः पृष्ठे बजरिमान्यर्य इन्द्रश्चिकायनसखा आयमेषे इन्द्राजगिरो अलिषितसर्गा अपःप्रेरयम् सकरस्य बुध्नात् यो अक्षे एक्रियाशते एभिर्विष्पक्तस्तम्भ पृथिवे मुद्या आपान्तमन्युस्तृपलप्रफलमाधुनिश्यमे माञ्छमाङ्गजेषे सोमो विश्वा अन्यतसा वना आनिर्वाविन्द्रम् प्रतिमाना आनिदेभो ्यावा आपृथिवेण सन्मानान्तरिक्षन्नात्रयः सोमो ओ अक्षाः यदस्य मञ्जुरति नियमानशृणाति वेणुरुजति स्थिराणे दघानवृत्रम् स्मृति तिर्वने एव रुरोजपुरो अरदन्नसिन्धोन् विभेदगिरिन्नपमिन्न कुम्भमाया इन्द्रो अकृणुतः स्वयुग्भिः प्रये मित्रस्य वरुणस्य सा जन्न मरिनः मिनन्ति मित्रम् प्रये मित्रम् रार्यमणन् दुरे वाः प्रसङ्गिरः प्रवरुणम् मिनन्ति या अमित्रे वसमिन्द्र तुम् दृषाणवृषं शिशीः इन्द्रो इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्यर्वतानाम् इन्द्रो अरुधामिन्द्र इन्मेधिराणामिन्द्रः भ्य इन्द्रः प्रभृतो अहभ्य प्रान्तरिक्षात्प्रसमुद्रस्य दासेः प्रभातस्य प्रससप्रज्ञो अन्धाप्रससिन्धुभ्यो निरिते प्रक्षितिभ्याः प्रसोषु चत्या उषसोनगेतुरसिन्धाते एव वर्ततामिन्द्रहेतिः अश्मे एव विध्यदिव आसृजानस्तपिष्ठे न हेशसा द्रोघमित्रान् अन्वहमास अन्विद्वनान्यन्वोपर्वसासः अन्विन्द्रम् रोदसेवावधाने अन्वापो ओ अजिहतराजमानम् कर्हि स्वित्सात इन्द्र चेत्यागस्त्यनदो रक्ष एषत् मित्रकृहो यच्छस देरगावः पृथिव्या आप्रकमुयाचयन्ते शत्रूयन्तो अभियेनस्तदस्प्रेमहिम्राधन्त ओ पुरोणयित्रासवनाजनाः नाम् ब्रह्माणिमन्दम् गृणता मृषेणा इमाघोषन्नवसासुदिन्दिलो विश्वाङ्गर्चतो याः शर्वाङ् भजमिन्द्रभुञ्जतीनाम् विद्यामसुमतीनान्नवाहानाम् विद्यामवस्तोरवसा गृणन्तोः विश्वामित्रा उतत इन्द्रदूनम् शुनम् मुवेममघवानमिन्द्रमस्मिन्हरेन्द्रतमम्बाजसातौ शृण्वन्तमुग्रमूतये समत्सुग्धन्तम् वृत्राणि सन्धिकन्धनानाम् सहस्रशीर्षपुरुषः सहस्राक्षःसहस्रपात् सभूमिम् विश्वतोः वृत्त्वाप्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदम् सर्वम् यद्भूतम् यच्च भव्यम् कृतामृतत्वस्येषा आनोयसन्ने एनातिरोहति एतावाहनस्य महिमातोऽज्यायांश्चपूरुषः पादौ अस्य विश्वाः भूतानि त्रिपादस्यामृतम् दिरि त्रिपादोऽर्न उदैत्पुरुषः पादो अस्येहाभवत्पुनाः ततो विश्वम्यत्रामत्साशनानशने अभि तस्माद्विराळजायत विराजोऽधिपूरुषः स जातोऽत्यरिच्यतपश्चाद्भूमिमधो पुरः यत्पुरुषेण हविषाः देवायज्ञमतम् मत वसन्तो अस्याशीलाज्यम् ग्रीष्म इद्धः शरद्धभिः तञ्यज्ञम् बर्हि शि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अजन्तसाध्या ऋषयश्चये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् प्रशोन्तांश्चक्रे वाय्याः नारण्यान् ग्राम्याश्चये तस्माद्यज्ञात्सर्वभूतरुदस्सा मा निजज्ञिरे छन्दाहम्सिजज्ञिरे तस्माजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो अभयादतः गावो अहजज्ञिरे तस्मात्तस्माज्जाता अजापयाः यत्पुरुषं यदधुः कतिधाव्यकल्पयन् मुखम् किमस्य ब्राह्मणोऽस्य मुखमासीद्बाहोरा आजन्यः कृतः पूरो ततस्यैष्यः पद्भ्याम् शूद्रो अजायत चन्द्रवामनसो जातश्चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्बायुरजायत नाभ्याः आसीदन्तरिक्षम् शीर्ष्णोद्योः समवर्तत पद्भ्याम् भोगर्दिश्रोत्रात्तत्तथा लोकान् अकल्पयन् सप्तास्या आसम् परिधयस्त्रिः सप्त समिधः कृताः देवा यद्धिर्नन्तम् वाना अवध्वन् पुरुषम् वशुम् यज्ञेन निर्ग्नव यजन्तदेवास्तादि धर्मा आणि प्रथमान्या आसन् ते हनाकम् महिमानः सदन्त यत्र पूर्वे ये साध्याः सन्ति देवाः सञ्जा आगृवद्भिर्जनबाण इध्यभेदमेदमो ना इषयन् युगः स्परे विश्वस्य होता आह विशो वरेण्यो विभुर्विभावा आशुरखा आसुखीयते सदर्शदश्रीरतिथिर्गृहे गृहे पने एव शिश्रिये तत्मबीरिव जनञ्जनञ्जन्यो नातिमन्यते विशहाक्षेति विश्वोऽशम् सुलक्षोलक्षैः क्रतु नासि सुक्रतुलग्ने एकविः काव्ये एनासि विष्पवित वसुर्वसोऽनाङ्क्षयसिक्तमे पैद्यावाचयानि पृथिवी चतुष्यतः प्रजानन्नग्नेतभयोनि वृत्तियमिडा आयास्पदे धृतवन्तमासदः आसे एचिकित्रभुषसा आभिपेतयोरेपतः सूर्यस्येपलश्मयाः श्र्यो ऽपर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसान्नकेतवाः यदोषधेरभिसृष्टोपनाहानि तपरि स्वयम् चिदुषे अन्नमास्ये प्रमोषधेर्दधिरे गर्भवृत्तियन्तमापो अग्निञ्जनयन्तमातराः तवित्समानम् वलिनश्च भीरुतोऽन्तर्वतीश्च सुवते आते ते ये यतन्ते रथ्यो यथा पृथक् शब्धा हंस्यग्ने अजराहाणिथक्षतः मेधाकारम् विदधस्य प्रसाधनमग्निम् भोताहारम् परिभूतमम् मतिम् तमिदर्भे हविष्यासमानमित्तमिन्महे वृणते नान्यन्वत् त्वामिदत्र वृणते त्वायवो होतारमग्ने विदधे येषु वेधसाः निर्दे एभयन्तो दधतिप्रया हंसिते हविष्मन्तो मनवो रुक्तबर्हिषः तवा आज्ञे होत्रम् ब्रह्माजासि बृहपतिश्च नोतमे यस्तुभ्यमग्ने अमृता इमा अस्मै मतयो वाचो अस्मदाङ्गृतो सुष्ठुतयः समग्मद असूयवो वसवे जातवे एतसे वृद्धासु जिद्मर्थनोजासु चाकलत् इमाम् रत्नाय सुष्ठुतिन्न वेयसीम् भोजैरमस्मा उशते शृणोतु नः भूया अंतरा हृद्यस्य निःस्पृशे एकायेपत्य उशते सुभासा आह यस्मिन्नश्वासर्षभास उक्षणो अपशापेशा अपसृष्टा स आहुताः कीलालपेशोऽपृष्ठाय वेधसे एहृदामतिञ्जनये चारुमग्नये अह्यज्ञे हभिरास्ये एते सृजे एव घृतम् चम्बे एव पाचसनिम् रयमस्मे सुवीरम् प्रशस्पन्धेः यशसम् ऋहन्तम् यज्ञस्य वोरथ्यम् विष्पतिम् विशामोदाहारभक्तो रतिथिम् विभावसु शोकुष्काः सुहर्णे सुदर्भुरभृशाः केतुल्यजतोऽद्यामशायत हिमवन्तस्पामुभये अकृधर्माणमग्निम् विरधस्य साधनम् अक्तुम् न यः पुरोहितन्तनवाः तमरुषस्य निंसते बलस्य रीता विपणेश्च मन्महे मया अस्य प्रहुता आसुदत्तवे यदा घोरासो अमृतप्रमाशतादिज्जनस्य दैव्यस्य तर्किरन् दतस्य हि प्रसितिर्दौरुव्यचो नमो मह्या हरमतिमनीयसी इन्द्रो मित्रो वरुणः सञ्चिकित्रिरेथो भगः सभिता पूतरक्षसः प्ररुद्रेण यैनाहारन्त्रिसिन्धवस्थिरो येभिः परिज्ञा पर्यन्दुरुज्रयोगिरोरुमजलदे विश्वमुक्षदे प्राणा रुद्रामरुतो अविश्वकृष्टयो दिवश्येनासो असुरस्य लीलयाः तेभिश्चे ते वरुणो मित्रो अर्यमेन्द्रो अदेवेभिरर्पशेभिरर्पशः इन्द्रे भुजं शशमानास आशतसूरो दृशे एके भृशनश्रोंस्ये त्रयेन्द्रस्यार्हणा वज्रम् आरवाः सोनश्चिदाहरितो अस्य नीलमलिन्द्राधा कश्चिद्भजतेतवीयसः भीमस्य कृष्णो यथरादभिश्वसो दिवेदिभेषुरिस्तन्नपाधितः सोमम्बो अद्यरुद्रायशिक्वसे क्षयद्वे हीराय नमसादिष्टन येभिः शिवस्ववाहाङ्गे वयापभिर्दिव श्रुशक्तिस्वयशालिकामभिः ते हि प्रजाया अभरन्धविश्रमो बृहस्पतिर्वृषभः सोमजामयः यज्ञैरथर्वा प्रथमो विधा हारदेवादक्षैर्भृगवः सन्ति पित्रिरे ते हि द्यावाः पृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमो यमोदिति देवस्पष्टाः द्रविणो दारुभुक्षणस्ररो ओदशी मरुतो विष्णुरहिरे उतस्य न उषिदामुर्मिजा कविरहिशृणोतु बुद्ध्यो ओहवे सूर्यापासाः विचरन्तादिवीक्षिताः विजाशमीन उषे अस्य वो ओधतम् रनः पूषा नपा विश्वदे व्योपान्नपादवतु वायुरिष्टये आत्मानम्बस्यो अभिपातमर्चतदश्विना सुखभायामलिश्रुतम् विशामासाभयानामशिक्षयम्भिरङ्गृणीमषे याभिर्विश्वाणोर्युवादत्र धनुषा पूर्वोरङ्गिराग्रा वा आणपूर्ध्वाभिजक्कुलध्वरम् येभिर्भिहा आया अहवद्विः सुमेकं ये यक्वेन एभिर्नः पातम् सह्यस एभिर्नः पातम् यज्ञे यज्ञे समर्थ्योः देवान् सपर्यधि यः सुम्नैर्देवैर्घः श्रुत्तमहाविवाहासात्तेना विश्वे एषामिरज्जवो देवानाम् वाग्महः विश्वे हि विश्वमहसो विश्वे ये यज्ञेषु ते खाराजाः नो अमृतस्य मन्द्राजमामित्रो वरुणः परिज्ञा कद्रुद्रो नृणां स्तुतो मरुतः पूषणो भगाः उतनो रक्तमवाम् ऋषण्वसो सूर्यामासासदनाय स धन्याः स चायत्साद्ये एषा बहिर्बुध्नेषु बुद्ध्याः उत नो अ देवा वश्मिनाशुभस्पतेधामभिर्मित्रा वरुणा पुरुष्यताम् महत्सराज एषतितम्बे एव दुरिता उत नो ओरुद्रादिन्द्रता विश्वे ए देवा सोरसस्व निर्भराः ऋपुर्वाज ऋभुक्षणः परिज्ञा विश्ववेदसः ऋभुरुभुक्षा रुपुर्विधतो मदः ते दृष्टरङ्गस्य सामचक्यज्ञो न मानुषः कृदीनो अक्रजो देव सवितः मधोनाम् सहो रीन्द्रो बन्धिभिर्ये एषाञ्जर्ष वीराञ्चक्रम् रश्मिन्नो युवे ऐषद्यावापृथिवीतातम् मह तस्मे वीरेषु विश्वचर्षिश्रवाः वृक्षम् वाजस्य सातये एवृक्षम् राजोतदुर्पणे ए एतम् शं समिन्द्रास्मयुष्पम् कोचित्सन्तम् सहसा वन्नभिष्टजे सदा आपाह्यभिष्टजे मे दताहम् वेदताहवसो एतम् मे स्तोमन्तनानसूर्ये एत्यः मानम् वा वृदन्त नृणाम् सम्वनन्नाश्यन्तश्चेवानपच्युतम् वावर्तयेषाहम् राजायुक्तैषाहम् निरन्यैः मेमधितानपौंस्यावृथे एव पविष्टान्ताः ृश्यैवे प्रथवाने वेने प्ररामे वो ओजमसुरे मखवत्सु ये युक्ताय पञ्चशता स्मयुपथा विश्राव्ये एषा अधीन्वत्र सप्ततिञ्च सप्तदा सद्योदिष्टदान्वः सद्योदिष्टपार्थ्यः सद्योदिष्टमायवः प्रैते वदन्त प्रपजम् वदावग्रामभ्यो वाचम् मृदतापदद्भ्यः यदद्रयः पर्वदाः सागमाशवश्लोकम् घो शम्भरथेन्द्रा आयसोपिनाः एते वदन्ति शतवत्सहस्रवदभिक्रन्दन्ति हरितेभिरासभिः विष्वेग्रावाडस्वकृतस्वकृत्यजाहो तुष्टित्पूर्वेह विरद्यमाशत एते वदन्त्यभिरन्ननामसंयो ओङ्घयन्ते अधिपक्व आविषि वृक्षस्य शाखा आवरुणस्य वप्सतस्तेऽभर्वा वृषभाः प्रेमराविशुः बृहद्वदन्तिमतिरेण मन्दिनेन्द्रङ्क्रोशन्तोविदम् नरामधो संरध्याधीरास्वसृभिरर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः सुवर्णावादमकृतोपद्यम् व्याः खरे कृष्णाः इषिरा अनर्तिषुः न्या अग्नियन्तु फलस्य निष्ठृतम् पुरोरेतो ओदधिरे सूर्यश्विताः उग्रा इव प्रवहन्तः समाजमुः साकम् युक्तावृषणो बिभ्रतोऽधुराः एष्वसन्तोः जग्रसारा अरा आविषुशृण्ण्व एषाम् प्रोथतो अर्वतामिव दशा आवलिभ्यो दशकक्ष्येभ्योदशयोक्त्रेभ्योदशयोजनेभ्यः दशा, दशा, दशा, दशा आभीषुभ्यो अर्चतादरे एभ्योदशधुरोदशयुक्तावहद्भ्यः ते अर्द्रयोदशयुन्त्रास आशमस्तेषा आ माता नम्बर्ये एहर्यतम् ओ, ओ सुतस्य सौम्यस्यान्धसोंशोः पीजूषम् प्रथमस्य भेजिरे ते सोमादो हरि इन्द्रस्य निंसतेंशुन्दुहन्तो अध्यासते कवि तेभिर्दुग्धम् अपि वान् सोम्यम् मध्वेन्द्रो वर्धते प्रथते वृषायतेः वृषा आवोहंशुर्नखिला आरिषाथरेणाशिताः दैवत्येवमः साचारवस्थनयस्य ग्रावाणो अजुषद्भमद्धरम् इला अदृतिरासो अद्रयो श्रवणा अश्रुसिता अमृत्यवः अनातुरा अजरास्थाव विष्णवः सुबीवसो अदृषिता अतृष्णजः ध्रुवा एवमः पितरो ओ युगे युगे क्षेमकामाससदसो नयुञ्जते अजुर्यासो अहरिषाचो ओहरिद्रव आद्याम् रवे एण पृथिवीमशुश्रवोः हरिद्वदन्त्यन्यस्पा इव केतुपब्दिभिः पगन्तो बीजमिवधान्याकृतः कृञ्जन्ति सोमन्नमिनन्ति वप्सदः सुते अध्वरे अधिवाचमकृ क्रीडयोनमातरम् तुदन्ताः विशोमञ्जासुषुपुषो ओमनीषाम् विवर्तन्तामद्रयश्चायमानाः इति अष्टबाष्टके चतुर्थोऽध्याजः